चटाटवीगलज्जलप्रवाहपावितस्थले तलेव लम्ब्य लम्बिताम्बुजङ्गतुङ्गमालिकां डमड्डमट्डमड्डमन्निनाथवर्जमर्वयं चकारचण्डताण्डवं तनोतुर शिव शिवम् निर्छरी सम्भ्रमभ्रमं निलिपनिर्झरि विलोलवीचिवल्लरि विराजमानमूर्धनि धगद् धगद् धगज्वलल्ललाटपट्टपावके किशोरचन्द्रशेखरेरपि प्रतिक्षणं मम संतति बन्धुवन्धुरस्फुरदिगन्त सन्तति प्रमोदमानमानसे कृपाकटाक्षधोरणी निरुद्ध दुर्दरापदि वस्तुनि पिङ्गलस्फुरक्मणामणि प्रभाकदम्ब कुङ्कुमद्रव प्रलिप्त दिग्वतु मदान्धसिस्फुरत्वगुप्तरीय मे दुरे मनो विनोदमद्भुतं हस्रलोचनप्रभृत्यशेषलेखशेखरप्रसून्नकूलिधोरणिविदूसरां त्रिपीठभु भुजङ्गराजमालयानि बद्धजाटजूटक श्रियै चिराय जायतां च घोरबन्धुशेखर चत्वरज्वलन्तनञ्जय स्फुलिङ्गपानिपीतपञ्चसायकं न मन्दिलिम्बनायकम् सुधामयूखलेखया विराजमानशेखरम् महाकपालि पट्टिका धगद् धगद् धगज्वलत् धनञ्जयामुदीकृतप्रचण्ड पञ्चसायके धराधरेन्द्र ुर्धर स्फुरत् गुहो निषेतिनि तम प्रबन्ध बद्धकन्धर निलिम्ब निर्झरिधरस्तनो दु कृति सिन्दुर कलानिधानबन्धुर श्रियं जगत्तुरन्धर पङ्कज प्रपञ्चकालिमप्रभावलम्बिकण्ठ कन्दलीरुचिप्रबद्धकन्दरं स्मरच्छिदं पुरच्छिदम् भवच्छिदम्बच्छिदम् गच्छिदान्त कच्छिदं तमन्त भजे सर्वमङ्गला कला कदम्ब मञ्जरी रसप्रवाह माधुरी विचूणामतुव्रतम् स्मरान्तकम् पुरान्तकम् जङ्गमश्व सत्मिनिङ्गमक्रमस्फुरकरालपालहव्यवक्तिमितिमिति विध्वनन्मृदङ्गतुङ्गमङ्गलध्वनिक्रम प्रवर्तितप्रचण्डताण्डव शिव गनिष्ठरत्नलोष्टयो सुपक्षपक्षयो तृणारविन्द चक्षुषो प्रजामही महेन्द्रयो समं प्रवृत्तिकदा सदा शिवं भजाम्यहम् कदा नििम्पनिर्झरि नि जकोटरे वसन् विमुक्त दुर्मतिः सदा शिरस्थमञ्जलिम्बन्चनो लो लग्नक शिवेति मन्त्रमुच्चरत् सुखी भवाम्यहम् इमम् हि त्तमं स्तवं पठन् स्मरन् विशुद्धिमेति सन्ततं हरे सुभक्तिमाशुयाति न्यथा गति हि देहिनां सुशङ्करस्य चिन्तनम् नसमये दशवक्त्रहीतम् यः शम्भुपूजनपरम् पठति प्रदोषे तस्य स्थिरां रथ गजेन्द्रतुरङ्गयुक्ताम् लक्ष्मीम् सदैव सुमुखिं प्रददाति शम्भु